गणेशपुराण उपासनाखंडम अयम 35 व्यास उवाच देर्ष तो गदे तस्भक्तिमकत्त्मादो मे कथय कथा मनोरमा ब्रह्मोवाच कृत्पदेश सुमे गदे मुनौ नारदनां निपुत्र रुक्माङ्गदो हर्षयुतो ददर्श सेनां स्वकीयां चतुरङ्गिणीतां तयापि दृष्टो नृपतिर्विरूपो यस्वर्णकान्तो रतिभर्तृरूपः आसीत् पुरेद्धं कथमेष जाधः संशय्य पप्रच्छनृपं निमित्तं सेनान्य ऊचुः गिरिन्वनानि सरिदो भ्रान्द्वाजवयमागतः क्षुतृपरीता राजेन्द्रत्वद्दर्शनसमुत्सुकाः पदे पदे प्रपश्यन्तः सम्प्राप्तास्ते पदाम्बुजम् इमामवस्थां दृष्ट्वा दृष्ट्वाते दुःखाद्दुःखतरं गताः किं निमित्तमभूत् तन्नः कथयस्व नृपोत्तम नृप उवाच अहमग्रे समायादृषिधुधितश्च अवश्यं पुरदशीघ्रं वाचग्न विगृहाश्रमम् तत्र गत्वा मया दृष्ट्वा तस्य पत्नी शुभ ना मुकुंदेदिशुभाजिदा नाम जलम मै साधुदुष्टा स्वरिणी चमोवाचा शुभम वचहा रि गुर मै साध नो चेच्चापम ददामिते। निरा मैं साधु बलाचुदे नेतस ती ग्नादुं सापदृषा ततस्तु वृक्ष मूलेखमुपष्टो हि दुखि प्रभावपु्य दृष्टवाद मुनि तेन मे कथितोरिष्टनाशको विधिरुत्तमः चिन्तामणिक्षेत्रगदो गणेशतीर्थसंश्रितः महिमा कथितस्तेन तस्य तीर्थस्य विस्तराद तत्र स्नानं समाख्यादं मुनिना दिव्यचक्षुषा अधस्नातुं गमिष्यामि स्व दोषस्यापनुत्तये यान्तु सर्वे मया सार्धं तत्र स्नातुं यदीच्छथ स्नात्वा दत्वा यथाशक्रिसम्भूज्य च विनायकं पूदास्तयो प्रभावेण यास्यामस्वपुरं स्वपुरं तदः क उवाच इति निश्चयं बुद्ध्वा जगम्मूराजपुरुरसरा दृष्ट्वा तीर्थ गणेशाख्यम दिव्य देहो बभौ नृप तप्त कांचन वर्णो यहा तदो जुग्मांगदो मेने नारदो कम वचह तप्रश्नात्वा ददौ दानान्यनेकानि नृपस्तदा रुक्माङ्गदो ब्राह्मणेभ्यो मुदा परमया युतः विनायकं पूजयित्वा तेजो राशिं ददर्शसः विमानमर्कप्रतिमं ब्राह्मणा सेवकाश्च विनायकगनार्जुष्टमप्सरः किन्नरैर्युदं नत्वा नृपस्थान्पप्रच्छके यूयं कुत आगताः किमत्रास्ति कार्यं तद्ब्रूद सादरं ब्रह्मोवाच श्रुत्वा नृपदिवाक्यानि मञ्जुलानि विमानगा दूताविनायकस्योचोर्धन्योऽसि नृपसत्तम येन दे सर्वभावेन ध्यादश्चिन्तामणिप्रभु तीर्थयात्राकृतः सम्यग्दानं दत्त्वा यथा विधि चिन्तामणिपूजितश्च कृतकृत्योऽसि साम्प्रतं चिन्तितस्य प्रदानाद्धि चिन्तामणिरयं स्मृदः वयं च कृतकृत्या स्मो दर्शनात् तव सुव्रत महिमानं न जानीमस्तव भक्तेर्नृपोत्तम कः येन वच सा बुद्ध्या जीवस्याप्यर्पणेन च आराधितास्त्वया देव सर्वब्रह्माण्डनायक विनायकस्तस्य दूतास्तेन च प्रेषिता नृपा उत्सुकः स उवाचास्मान्मद्भक्तं शीघ्रयायिनः रुक्माङ्गतं विमानेन आनयन्तु ममादिकम् इति श्रुत्वा वयं यादा आरोकस्व न भोगमं शीघ्रतरं देव सहास्माभिर्विनायकम् ब्रह्मोवाच इति श्रुत्वा वचस्तेषामास रुक्माङ्गदो नृपः क्वासं क्वा क्व चाखण्डितविग्रहः अप्रमेये प्रतर्क्यश्च चिन्मात्रो विभुरव्ययः सर्गस्थित्यप्ययानामह्यः कारणं कारणातिगः तस्यादरो मयि कथं न जाने तीर्थजं फलं जन्मान्तरगतं किं मे बलिदं पुण्यमुत्तमम् तेन वोदर्शनं जातमग्रेदिफलदं शुभं यूयं धन्यतरा येषां प्रत्यक्षो हर्निशं पूजयामासनत्वा चरणपङ्कजम् प्रार्थयामास सर्वां स्थान्पिता मम नृपोत्तम ब्रह्मण्यः सत्यवादीजभीमो भीमपराक्रमः विनादं कथं मायामि मादरं चारुहासिनीं तया प्याराधितो देवो देवदेवो विनायकः जन्मावधि न चान्यं सा मनुते दूत उवाच एवं चेत्तर्हि तीर्थेऽस्मिन्कुरु स्नानम् तयोरपि श्रेयस्तस्मै च तस्यै च पित्रे मात्रे प्रदीयताम् तदस्तावपि नेष्यामो विमानवरमास्तितौ ब्रह्मोवाच इति तद्वचनं श्रुत्वा कृत्वा प्रतिकृतिं कुशैः कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः पुरा त्वयि तुसस्नादो तु सस्नादो यस्येदं ग्रन्थिबन्धनम् एवं मन्त्रं समुच्चार्य सर्वेषा मानुकूर्वशः ग्राम्याणां सर्वलोकानां चक्रे स्नानविधिं नृप चिन्तामणिक्षेत्रगदं तीर्थे गणेश संज्ञके तदो रुक्माङ्गदो राजा सबलो विमान विमानवरमारुह्य कौण्डिन्यं पुरमाययौ वाद्यखोश्रयर्ब्रह्मखोश्रयर्गन्धर्वाप्सरसां रवैः नाधिदं गगनं तेन ना विमानेन दिशो दश मादापि दृग्भ्यां प्रददौ श्रेयो जुक्माङ्गदो नृपः सर्वेषामेव लोकानां स्नानश्रेयो विनायके दत्तमात्रे मात्रे स्नानजे श्रेयसि प्रत्येकं ते समारूढा एकेकं गगने एवं रुक्माङ्गदो भीमस्तन्मादा चारुहासिनी सर्वे लोका ययुस्तत्र यत्र देवो विनायकः एवं तन्नगरं सर्वं मा बालस्वपचावधि पुण्याद्गणेशतीर्थस्य स्नानजात्स्वर्गतिं गतं क उवाच इति ते कथितं सर्वं यद्यत्पृष्ठं त्वया मुने चिन्तामणिक्षेत्रगतमाहात्म्यं तीर्थसम्भवं यशृणोति नरो भक् सोऽपि तद्गतिमाप्नुयात् इति श्रीगणेशपुराणे उपासनाखण्डे कादम्बपुरगतवर्णनं नाम पञ्चत्रिंशत्तमोऽध्यायः ओ